नारदपुराणं पूर्वार्थम् अध्यायं 38 नारद उवाच किम् तत्स्तोत्रं महाभाग कथं तुष्टो जनार्दनः उत्तः पुण्यपुरुषकीदृश्यं लब्धवान्वरं सनक उवाच उत्तस्तु तदा विप्रो हरिध्यानपरायणः पादोदकस्य माहात्म्यम् दृष्ट्वा तुष्टाव तुष्टावभक्तिदः उत्त उवाच नतोऽस्मि नारायणमादिदेवम् जगन्निवासम् जगदेकबन्धुम् चक्राब्ज शार्ङ्गाश्रिधरम् महान्तम् स्मृतार्तिनिघ्नम् शरणम् प्रपद्ये यन्नाभिजाब्जप्रभवो विधादा सृजत्यमुं लोगसमुच्चयं च यत्क्रोधतो हन्ति जगच्चरुद्रस्तमादिदेवं प्रणतोऽस्मि विष्णुं पद्मापदिं पद्मदलायताक्षं विचित्रवीर्यं निखिलैकहेदुं। वेदान्तवेद्यं पुरुषं पुराणम् तेजोनिधिं विष्णुमहं प्रपन्नः आत्माक्षरसर्वगतोच्युताख्यो ज्ञानात्मको ज्ञानविदां शरण्यः ज्ञानैकवेद्यो भगवाननादिः प्रसीदतां वृष्टिसमष्टिरूपः अनन्दवीर्यो गुणजातिहीनो गुणात्मको ज्ञानविदाम्बरिष्ठः नित्यप्रपन्नार्तिहरः परात्मा दयाम्बुधिर्मे वरदस्तु भूयाद यस्थूलसूक्ष्मादिविशेषभेदैर्जगद्यथावत् स्वकृतं प्रविष्टः त्वमेव तत्सर्वमनन्दसारं त्वत्तः परं नास्ति यतः परात्मन् अगोचरं यत्तवशुद्धरूपं मायाविहीनं गुणजातिहीनं निरञ्जनं निर्मलमप्रमेयं पश्यन्ति सन्तः परमार्थसंज्ञं येकेन हेम्नैव विभूषणानि यादानि भेदत्वमुपाधिभेदाद् तथैव सर्वेश्वर एक एव प्रदृश्यते भिन्न इवा किलात्मा यन्मायया मोहितचेतसस्थं पश्यन्ति नात्मानमपि प्रसिद्धम् त एव मायारहितास्तदेव पश्यन्ति सर्वात्मकमात्मरूपम् विभुं ज्योतिरनौपम्यं विष्णुसंज्ञं नमाम्यहं समस्तमेतदुद्भूतं यदो यत्र प्रतिष्ठितं यदश्चैतन्यमायातं यद्रूपं तस्य वै नमः अप्रमेयमनाधारमाधाराधेयरूपकम् परमानन्दचिन्मात्रं वासुदेवं नदोऽस्म्यहं हृद्गुहानिलयं देवं, नदो देवं योगिभिः परिसेवितं योगानामादिभूतं तं नमामि प्रणवस्थितं नादात्मकं नादबीजं प्रणवात्मकमव्ययम् सद्भावं सच्चिदानन्दं तं वन्दे तिक्मचक्रिणम् अजरं साक्षिणं त्वस्य मनसगोचरं। निरञ्जनमनन्दाख्यं विष्णुरूपं नतोऽस्म्यहम् इन्द्रियाणि मनो बुद्धिः तेजो बलं धृतिः वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ च विद्याविद्यात्मकं प्राहुः परात् परतरं तथा अनादिनिधनं शान्तं सर्वधादारमुच्यतं ये प्रपन्ना महात्मानस्ते श्रमकृतिर्हि शाश्वती वरं वरेण्यं वरदं पुराणं सनातनं सर्वगतं समस्तं नदोऽस्मि भूयोऽपि नदोऽस्मि भूयो नदोऽस्मि भूयोऽपि नदोऽस्मि भूयः यत्पादतोऽयं भवरोगवैद्यो यत्पादपांसुर्विमलत्वसिद्ध्यै यन्नाम दुष्कर्मनिवारणाय तमप्रमेयं पुरुषं भजामि सद्रूपं तमसद्रूपं सदसद्रूपमव्ययं तत्तद्विलक्षणं श्रेष्ठं श्रेष्ठां भजे निरञ्चनं निराकारम् पूर्णमाकाशमध्यगम् परञ्च विद्याविद्याभ्याम् हृदम्बुजनिवासिनम् स्वप्रकाशमनिर्देश्यं महतां च महत्तरम् अरो अणोरणीयां समजम् सर्वोपाधिविवर्जितम् यन्नित्यं परमानन्दं परं ब्रह्मसनातनं विष्णुसञ्ज्ञं जगद्धाम तमस्मि शरणं गदः यं भजन्ति क्रियानिष्ठा यं पश्यन्ति च योगिनः पूज्यात् पूज्यतरं शान्तं गदोऽस्मि शरणं प्रभुं यं न पश्यन्ति य एतद्वयाप्यतिष्ठति सर्वस्मादधिकं नित्यं नदोस्मि विभूमव्ययम् अन्धकरणसंयोगाज्जीव इत्युच्यते च यः अविद्याकार्यरहितपरमात्मेधिगीयते सर्वात्मकं सर्वहेदुं सर्वकर्मफलप्रदं वरं वरेण्यमजनम् प्रणतोऽस्मि परात्परम् सर्वज्ञं सर्वगं शान्तं सर्वन्तर्यामिणं हरिम् ज्ञानात्मगं ज्ञाना ज्ञानात्मगं ज्ञाननिधिं ज्ञानसंस्थं विभुं भजे नमाम्यहं वेदनिधिं मुरारिं वेदान्तविज्ञानसुनिश्चितार्थम् सूर्यें सूर्येन्दुवत् प्रोज्वलनेत्रमिन्द्रं खगस्वरूपं वपदि स्वरूपं सर्वेश्वरं सर्वगतं महान्तं वेदात्मकं वेदविदां वरिष्ठं तं वाङ्मनोचिन्त्यमनन्दशक्तिं ज्ञानैकवेद्यं पुरुषं भजामि पाशि इन्द्राग्निकालासुरपाशिवायुसोमेशं मार्दन्दपुरन्दराद्यैः यःपादिलोकान् भावस्तमप्रमेयं शरणं प्रपद्ये सहस्रशीर्षं च सहस्रपदं सहस्राबाहुं च सहस्रनेत्रं समस्तयज्ञैपरिजुष्टमाद्यम् नदोऽस्मि तुष्टिप्रदमुग्रवीर्यं कालात्मकं कालविभागहेतुं गुणत्रयाचीदमहं गुणज्ञम् गुणप्रियं कामधमस्तसङ्गमदीन्द्रियं विश्वभुजं वितृष्णम् निरीहमग्र्यं मनसाप्यगम्यं मनोमयं चान्नमयं निरूढम् विज्ञानभेदप्रतिपन्नकल्पं न वाङ्मयं प्राणमयं भजामि न यस्य रूपं न बलप्रभावे न यस्य कर्माणि न यत्प्रमाणं जानन्ति देवा कमलोद्भवाद्यास्तोष्याम्यहं तं कथमात्मरूपम् संसारसिन्धौपदिदं कदर्यं मोहाकुलं कामशदेन बद्धम् अकीर्तिभाजम्पिशुनं कृतघ्नं सदा शुचिं पापरदं प्रमन्युं दयाम्बुधे पाहि भयाकुलमां मां पुनस्त्वां शरणं प्रपद्ये इति प्रसादितस्तेन दयालुकमलापदिः प्रत्यक्षदामघातस्य भगवां तेजसां निधिः अदशी पुष्पसङ्काशं फुल्लपङ्कजलोचनं किरीडिनं कुण्डलिनं हारकेयूरभूषितम् श्रीवत्सकौस्तुभधरं हेमयज्ञोपवीतिनं नासाविन्यस्तमुक्ताभवर्धमानतनुच्छविं पीदाम्बरधरं देवं वनमाला विभूषितं तुलसी कोमलदलैरर्चिताङ्घ्रिं महाद्विधिं किङ्गिणी नूपुराद्यैश्च शोभिदं गरुडध्वजम् दृष्ट्वा न नाम विप्रेन्द्रो दण्डवत्क्षिदिमण्डले पादा उत्तंगो हर्षवारिभिः मुरारे रक्षरक्षेदि व्याहरन्नान्यधीस्तदा तमुदाप्यमहाविष्णुरालिलिङ्गदयापरः वरं वृणुष्व वत्सेदि प्रोवाच मुनिपुङ्गवम् असाध्यं नास्ति किञ्चित् ते प्रसन्ने मयि सत्तम इतिदिदं पुनः प्रणम्य प्राह देवदेवं जनार्दनं किं मां मोहयसि श त्वं किमन्यैर्देवमेवरैः त्वयि भक्तिर्दृढामेस्तु जन्मजन्मान्तरेष्वपि कीटेषु पक्षिशु, मृगेषु सरीसृपेषु रक्षक्पिशा च मनुजेष्वपि यत्र तत्र जागस्य मे भवदुः केशवते प्रसादा त्वय्येव भक्तिरचलाव्यभिचारिणी च एवमस्त्विधि लोके दिव्यज्ञानं ददौ तस्मै अपि दुर्लभं पुनस्तु वन्दं विप्रेन्द्रं देवदेवो जनार्दनः इदमाहस्मिदमुखो हस्तं तच्छिरसिन्यः सन् श्रीभगवानुवाच आराधय क्रिया योगाय मां सदा द्विजसत्तम नरनारायणस्थानं व्रजमोक्षं गमिष्यसि त्वया कृतमिदं स्तोत्रं यः सततम् सततं नरः सर्वान् कामानवाप्यान्दे मोक्षभागी भवेत्तदः इत्युक्त्वा माधवो विप्रं तात्रैवान्तर्दधे मुने नरनारायणस्थानमुत्तोऽपि तदो ययौ तस्माद्भक्तिस्सदा कार्या देवदेवस्य च कृणः हरिभक्तिपरा प्रोक्ता सर्वकामफलप्रदा उत्तो भक्तिभावेन क्रियायोगपरो मुने पूजयन्माधवं नित्यं नरनारायणाश्रमे ज्ञानविज्ञानसम्पन्नसञ्चिन्नद्वैत संशयः अवाप दुरवापं वै तद्विष्णो परमं पदं पूजितो न वापि संस्मृतो वापि मोक्षदः नारायणो जगन्नाधो भक्तानां मानवर्धनः तस्मान्नरायणं देवमनन्दमपराजितम् इहामुत्र सुखप्रेप्सु पूजयेद्भक्तिसंयुधः यः पाठ्येदिदमाख्यानं शृणुयाद्वा समाहितः भवनं सर्वाकनिर्मुक्तप्रयादिभवनं हरेः इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्यं नामाष्टत्रिंशोऽध्यायः ओम्